श्रेशम्भोमयि करुणा शिशिरं दृष्टिं दिशन्मे सुधावृष्टिं संतापं अपाकुरु मे मन्ता परमे शदवदया यास्याम् अवसीदामि यदर्तिभिः अनुगुणं इदं वा गजं हजां तव सन्नवसिदामि यदन्तकशासन न तत्तवानुगुणं देवस्मरन्ति तव एतेषां स्मरतोऽपि नार्तिरिति कीर्तिं कलयसि शिव पाहीति ग्रन्थन् सीताम्यगं इदम् आदिश्यागृतौ माम् अन्तर्यामि असवगत्मिति आर्तिषु मज्जयसे मां किं ब्रूयां तवै तव कृपैगवत्रमहम् मन्ताग्रणीरगं तव मयि करुणां घटयितुं विभो नानम् आक्रष्टुम् तान्तु बलादलमिह मद्वैन्यमिति समाश्वसिमि त्वं सर्वज्ञः अहं पुनरज्ञहाम् अनीसोगम् ईश्वरस्त्वमसि त्वं मयि दोषान् गणयसि किं कथये किं कथये तुदति किं दयान आश्रितुर्ततरं मामुपेक्षसे किमिति शिव न किं दयसे श्रुतवाप्तादीनार्ति हृदिति खलु संसन्ति जगति सन्तस्त्वा प्रहराहरेति वादि फणितमध्य इति पालितो भवता शिवपाहीदिवदोगं शिव पायीदिवदोगं श्रितोन किं त्वां कथं न पाल्यस्ते शरणं व्रज शिवमार्ती स तव हरेदिति सतां गिरागं त्वां शरणं गतोऽस्मि पालय करमपि तेष्वि स पक्षपातन् हर हर नामः पार्वती पदये हर